पत्तावधकम सृष्टिबेद वैकुंठवर्दित बलोद प्रसाद अंबोजयो निरसृजत् किल जीव देहा स्थानूनि भूरुहमयानि ततादिरश्च जातिर्मनुष्यनिवहानभिदेववेता विद्याग्रहास्मि मिमतिराकविकोपभीति अज्ञानवृद्धिमिति पञ्चवितांस दृष्ट्वा उद्दामतामस पदार्थविधानून तेने त्वदीयचरण स्मरणम् विशुद्ये तावत्स सर्जमनसा तनकम् सनन्दम् भूयः सनातनमुनिम् च सनत्कुमारम् ते सृष्टिकर्मणि तु तेन नियुज्यमाना सत्तादभक्तिरसिका जगृहूर्नवाणी एकादशा ह्यवदया च विभिन्नरूपम् रुद्रम् विदाय दयिता वनिदाश्च तत्त्वा प्रणुन्न भ्राहा प्रजाविरचनाय च सादरम् तम् मा प्रजा सृजत्तवश्चरमङ्गलाया आचष्टतम् कमलभोर्भवदीरितात्मा तस्यादसर्गरसिकस्य मरीचिरद्री दद्धाङ्गिराक्रतुमुनि पुलः पुलस्य अङ्गातजायत भृकुश्च वसिष्ठदक्षौ श्रीनारदस्य भगवान् भवदम् कृदास धर्मातिकानभिसृजन् वाणी य विधिरङ्गज सङ्कुलो बो त्वद्बोधितैः सनकदक्षमुकैस्तनूजै उद्बोधितश्च विररामतमो विमुञ्चन् वेतान् पुराणनिवहान् अपि सर्वविद्यान् कुर्वन् ेषु तेषु विनिदायसु सर्गवृद्धिम् अप्रानुवंस्त तव पदाम्बुजमाश्रितो भूत् जानन् उपायमतदेकमजो विभज्य श्रीपुंसभावमभजन् मनुतत्त्वदुभ्याम् मा दाभ्याम् च मानुषकुलानि विवर्धयम्स्त्वम् गोविन्दमारुतभुरादिवरुन्तिरोगान् श्रीकृष्ण गोविन्द हरे मुरारेः वासुदेवा।